श्रीमद्भागवत महापुराणकाद स्कंद अथ सप्तमोध्याय अवधूतपाख्यान पृथ्वी से लेकर कबूतर तक आठ गुरुओं की कथा श्री भगवाच यदा थ महाभाग ची तमे मे ब्रह्मो लोकपालाक्षिण मया निष्पादितं यत्र देवकार्यम् अशेषतः यदर्थम् अवतीर्णोऽहम् अंशेन ब्रह्मणार्थितः कुलं वैशाप निर्दग्धं नक्ष्यन्त्यन्योन्यविग्रहात् समुद्रसप्तमेणेतां पुरीं च प्लावयिष्यते यर्हे वायं मया भविष्यत्यचिरासाधो कलिनापि निराकृतः न वस्तव्यं तयैवेह मया त्यक्ते महीतले जनो धर्मरुचिर्भद्र भविष्यति कलौ युगे त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु मय्यावेषमनशम्यं समिदृं विच विचिरस्वगाम् यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिर्नस्वरं गृह्यमाणं च विद्धि मायामनोमयं पुंसो युक्तस्य नानार्थो भ्रमश गुणदोषभाक् कर्माकर्मविकर्मेति गुणदोषधियोभिधां तस्माद्युक्तेन्द्रियग्रामो युक्तचित्र इदं जगत् आत्मनेक्षस्व वितत माम् आत्मानं मय्यधीश्वरे ज्ञानविज्ञानसंयुक्त आत्मभूतशरीरिणाम् आत्मानो भवतुष्टात्मानान्तराय रिविहन्यसे दोषबुद्ध्यो भयातितो निषेधान्न वितं निवर्तते गुणबुद्ध्या च विहितं न करोति तथार्भक सर्वभूतः सुहृच्छान्तो ज्ञानविज्ञाननिश्चयः पश्यन्मदात्मकम् विश्वम् न विपद्येत वै पुनः श्रीशुकुवाच इत्यादिष्टो भगवता महाभागवतो नृप उद्धव प्रणिपत्याः तत्त्वजिज्ञासुरच्युतम् उद्धौ उवाच योगे स योगसंभव योगसम्भव निःश्रेयसाय मे प्रोक्तस्त्यागसंन्यासलक्षणः त्यागोऽयं दुष्करो भूमन् कामानां विषयात्मभि सुतरां तैः सर्वात्मन्न भक्तैरिति मे मतिः सोऽहं ममाहमिते मूढामतिर्विगाढ त्वन्मायया विरचितात्मनि सानुबन्धे तत्त्वञ्जसा निगदितं भवता यथाहं संसाधयामि भगवन्ननुसाधिभृत्यं सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं भक्ता रमेश विविधे स्वपि नानुचक्षे सर्वेऽपि मोहितधियस्तव मायये मे ब्रह्मादयस्तनुभृतो बहिरर्थभावा तस्माद्भवन्तमन्वद्यमनन्तपारं सर्वज्ञमेश्वरमकुण्ठविकुण्ठतिष्णं दर्विण्यधीरहमोहवृजनाभितप्तो नारायणं दर्शकं शरणं प्रपद्ये श्रीभगवानुवाच प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः समुद्धरन्ति ह्यात्मानम् आत्मनैवाशुभाशुयात् आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः यत्प्रत्यक्षानुमानाभ्यां सेयसावनुविन्दते पुरुषस्त्वे च मां धीरा साङ्ख्ययोगविशारदाः आविस्तरां प्रपश्यन्ति सर्वशक्त्योपविहितम् एक द्वित्री चतुःपादो बहुपादस्तथा पदः ब्रह्म वसन्ति पुरसृष्टा तासां मे पौरुषी प्रिया अत्र मां मार्गयन्त्यद्धा युक्ता हेतुभिरीश्वरं गृहमाणैर्गुणैर्लिङ्गै अग्राह्यमनुमानतः अत्राप्युदाहरन्तीम् अमितिहासं पुरातनम् अवधूतस्य संवादं यदूरमित तेजसः अवधूतं द्विजं कञ्चिञ्चरन्तम् अकुतो भयं कविं निरीक्षितरुडं यदु प्रपच्छन्न धर्मवेन्